स्वाहा त्रिभ्यस्वाहा पञ्चभ्यस्वाह सप्तभ्यस्वाः नवभ्यस्वाहे एकादशभ्यस्वाहा त्रयोदशभ्यस्वाः पञ्चदशभ्यस्वाः सप्तदशभ्यस्पाहे कान्नविंशत्यै स्वाहा नवविंशत्ये स्वाहे कार्णचत्वारि विंशते स्वाहा नवचत्वारि त्ये स्वाहा न वाजेत्ये स्वाहे कान्न सदाय स्वाहा सदाय Nam-Bhyag svaha, Jundhjah svaha, Jambhya svaha, Nam-Bhyasvaha, Jambhya svaha, Dvarajah svaha, Jundhja svaha, Joda Jambhya svaha, Ashtarajah svaha, Vigo-satkesvaha, Tanabakeshva, Raghya svaha, Sarmasmai svaha, त्रिभ्यस्ताः पञ्चभ्यस्ताः सप्तभ्यस्ताः नवभ्यस्ताहे एकादशभ्यस्ताः त्रयोदशभ्यस्ताः पञ्चदशभ्यस्ताः सप्तदशभ्यस्ताहैकान्यंशत्ये स्वाहा नवविंशत्ये स्वाहे कान्नचत्वारि विंशते स्वाहा नवचत्वारि विंशते स्वाहे कान्नषष्ठत्ये स्वाहा नवषष्ठे स्वाहे यस्वाहा शदायस्वाहा सर्वस्मै स्वाहा चतुर्भ्यस्वाहाभ्य स्वाहा द्वादशभ्यस्वाः षोडशभ्य स्वाहा विगुंशत्ये स्वाहा षण्डवत्ये स्वाहा शदाय पञ्चभ्यस्वाः दशभ्यस्वाः पञ्चदशभ्यस्वाः विगौषत्ये स्वाहा पञ्चनवत्ये स्वाः सदायस्वाः सर्वस्मै स्वाहा स्वाहा विपुंसत्ये स्वाहा त्रिपुंशदे स्वाहा चत्वारि विंशदे स्वाहा पञ्चाशदे स्वाहा नृत्ये स्वाहा दत्तत्ये स्वाहा शेत्ये स्वाहा पञ्चाशदे स्वाहा शदाय स्वाहा द्वाभ्यागम्शभ्यागस्वाहा त्रिभ्यद भस्वाः चतुर्भ्यस्वाः पञ्चभ्य भ्यस्ताः षडभ्यश्च भस्वाः सप्तभ्यस्वाहा द्वाभ्यश्च भ्यस्वाः नवभ्य भस्ताः सहस्राय स्वाहा सर्वस्मै स्वाहा शताय स्वाः सहस्राय स्वाहा वृदाय स्वाहा लीलाय स्वाहा वेदाय स्वाहा अद्भुदाय स्वाहा निर्भुदाय स्वाहा प्रथमं वा जेतेन यन्ति यत्र सममः पापा विहीयं वा घेतेन भवन्ति यत्र सममहर्यो मे प्रजवे यदामुपसेण प्रतिपद्यतेगस्थानगोहन्ति गणोऽभ्येतसहीयते सुयोज शमेहन्न विभाग्यमुपहन्यते सहीयते तस्मै उपहदाय व्याहतमेवान् भारद्भ्य समश्रुते सुयो व्याहसहीयते यज्ञस्त्व समर्थेन देवास्वर्गल् लोकमायल यज्ञस्व्यर्थेनातुरान् पराभावयन्य यज्ञस्य समर्थं तद्यजमानस्य यद्वृद्धं तद्वाजयेन विप्रो यत् ग्रहवदिना द्वे समागेतत्सत्पराज्ञ नगारेक् व्यस्तवन्ते यम वेदपदोराज्ञे यद्वात्यां किंजाच्यन्ति दार्ष्ट्रे दैलगौ सर्पराग्नि तेगदेव किंजा वाचा मृतोमि रष्ट्रकारस्तदभयमाप्तामरुद्यक्तिष्ठामे सीतार्मनसास्तवदेन वायमामस्वरतो नाशपदवेरष्टद्यपर्याप्तमर्गनि मनोवादीभाग सत्यपर्याप्तमर्हदेमन अपरिभवदमहाब्रह्मवदं तिपरविदावार ैवाना स्थे ब्रह्मणप्रतिगलाप्रतिगणः ब्रह्मवादिना वदन्ति किन् शमेनान्नमाणो वृन्ते प्राणानन्नान्त्रे वाल्लाकारञ्चतुः पञ्चम् पञ्चमेनेत्रिपञ्चाक्षरा पञ्च सप्तमेनेति सप्तमधायुषे किमष्टमेनेतृष्टाक्षराल् लायत्रेमिति किन्नवेन सर्वदाग्रस्ताददाक्षरान् द्रष्टभृन्द्वाधरेण जग्तावद्वा अस्ति यावेन त्यापदेवास्ति हृदयम् वृन्दे एष वा आप्तो द्वादशाहो यत्रयोददाप्तस्य मानग्यश्चेतदहत्वायलीयश्चोदयलीयश्च त्रतिरात्र भवत्रे इमे लोका एषाम् लोकानामाप्यैः प्राणावे प्रथमो दिरात्र व्यानोऽ पास्त्रीयः प्राणापानो दानेष्वे प्रतिष्ठन्ति सर्ववायुर्यन्तिक एवम् विद्वांसस्त्रयो जरात्र वासते र्वाकैशा यद्वादशाहस्तान्विच्छन्तर्यन्मध्येरासुरम् कुर्युरपदासुगा गृहवदेर्वाक्सादुपरिष्टाच्छन्दोमानाम् महाब्रतम् कुर्वन्ति सन्तता मेभवाजपरन्धरेण पदासुगा गृहवदेर्वाग्भवति वशवो वैषन्दोम अन्नम् महाब्रतम् यजुपरिष्टाच्छन्दोमाणाम् महाब्रतम् कुर्वन्ति पशुजैवान्नाद्यप्रतिष्ठन्ति दित्या अगामयन्तोभयाम् लोकयोगेदञ्चतुर्दश आत्मश्चन्तमाहरण्येणाव लोकयोराभ्रवन् तस्मिंकश्चामुष्मैकश्च ग एवम् विद्वागुषश्चतुर्दश रात्रमासभयोरेव लोकयोभ्रवन्दस्मिंकश्चामुष्मैकश्च चतुर्दश रात्रभवनि सप्त सप्तारण्याभये रामवरुद्धे यराधीनानि वृष्टानि भवति ेवयम् लोकमभिजयन्ति यत्र ते जीनानि वृष्टानि भवन्ति इममेव देयम् लोकमभिजयन्ति यत्रयस्त्रिकंशो मध्यस्तो भवतः साम्राज्यमेव गच्छन्ति राजो भवतो हि राजानेव समाना भवन्ति रात्रावभितो भवतः परिगृहीत्यै प्रजापतिस्वर्गम् लोकभयेत्तन् देवान् वागन्तानानित्याश्च पशवश्चान्वागन्ते देवा अभ्रमणियान् पशोन्पादि पुष्पदगिलेन् वाग्भ्रन्दयितेऽभ्यगेतश्चतुर्दशरात्रम् प्रत्यहन्तादित्याः पृष्ठे सुवर्गम् लोकमारोहन्तः लोके पशून् प्रत्योऽहन् पृष्ठेना नित्याः लोके पशवोग एवं यद्वागं सश्चतुर्दशः यो लोकगौरभ्रुवन्त्यस्मैश्च वृष्टैरेवामस्मिन् लोकरुद्ध्रुवन्लोके गौराय रन्द्रो निलोहन्त्य पृष्ठानि सर्वस्यान् मध्ये पृष्ठानि भवन्ति सर्वसत्तागौ जो वैवेर्यं पृष्ठान्योजगेव वीर्यम् मध्यदेव न्तनमसो मृगदाभ्यामेव यन्त्यसो अनयोरेव प्रतिष्ठन्ते देवै यज्ञस्यायणेषु अर्गरम् लोकयन्ति परागम् लोकमभ्यारोहन्ति ये उभयो लोकयो म् विना विना देवान्नाद्यमवृन्ददेवारस्रश्रोष्ठन्त्य इन्द्रमेश्वरम् देवताभिराजेत्सरम् व्यावृतमगच्छावस्मादेतम् पञ्चदश आक्रम् प्रायच्छत्तमाभरत्तेनाभिर्देवताभिर्व्यावृतमगच्छत्येवम् विद्वाचदश आक्रमादरे व्यावृतमेव पात्मनः भ्यादर्वेण गच्छन् निद्यो निर्गौराजुभवदीयम् मावज्यो जलं गरिक्षम् गौरसामाजुरे छन्दामै यच्छन्दामा भवन्तैरवृन्ध वैरेत्यम् पृष्ठादि भजवच्छन्दामा वोजस्यैव वेद्ये भुजप्रियतिष्ठन्ति पञ्चदश रात्रो भवति पञ्चदशो भद्रभज्रमेव भ्राजव्येभ्यः प्रहरन्दनिरात्रा भवितो भवत इन्द्रियस्य परिगृहेत्यै इन्द्रो वेशिशलवा प्रतिष्ठितः प्रजापतिमपादश रात्रम् वज्रम् प्रायच्छत्तेनादुरान् पराभाव्य विजित्यश्वमगच्छद्युष्कृत्मानन्य पञ्चदश रात्रेण इन्द्रियम् आत्मन्न सत्र एवम् विद्वापञ्चदश आत्रमाभाव्य विजित्यष्टेङ्गच्छ पञ्चदशत्रेण जो बलमिन्द्रियं दीर्यमात्मन्दश एता एव पञ्चदश वार्धमानस्तरात्रयोधमादनस्संवत्सराजा इन्द्रियस्मात्मसवर्ग्या एता एव सुवर्गा पञ्चदश वार्धमानस्तरा प्रयो भलमादस्संवत्सरा प्रनेसंवत्सरस्वर्गो लोकस्तस्मात् स्ववर्ग्याद्यो यौराय ीयं वाचरिे पृष्ठानि भवन्तो वैवेर्यं पृष्ठान्योजगेव वेर्यं मध्य नोदसदे बृहत्तराभ्यां वाम सन्तरवसो बृहदाभ्यामेव यन्त्यसो अनयोरेव प्रतिष्ठन्ते देवी यज्ञाभ्यामेव सुमर्ग लोकयन्ति पराञ्चोभागं लोकमभ्यारोहन्ति पराचीनान्य प्रत्यन्तोत्तिष्ठन्ति पञ्चदशेतास्तासांशदशाक्षरानन्दं विराजेवान्नाद्यमवृन्धेयाः पञ्चपञ्चदिशो तिष्वेव प्रतिष्ठन्ति निरा गजागे पशोनाम् परिगृहेत्यये गावयतान्नादस्यामितयु सप्तदशरात्रमपश्यक्तमाहरक्ते नागजतो विद्वाकोषः सप्तदश रात्रमासदे नागागेव भवन्ति पञ्चाहो भवति पञ्चमानवस्तवत्सरतुष्वेवदं वत्सरे पदतिष्ठन्त्यक्पान्तो यज्ञो यज्ञमेवावरुन्धरे तत्र बाले एव पृष्ठेन वरुन्धरे पशुञ्छन्दन्दो वैराजो वै वीर्यम् पृष्ठादि पशपच्छन्दो मा भोजस्येव वीर्ये पशुष प्रतिष्ठन्ति सप्तदश रात्रो भवति सप्तदश प्रजापति प्रजापते रात्रादि रात्रारर्भितो सा विराग् विक्रम्याधिष्ठद्ब्रह्मणा देवेष्पन्देना सुरे देवागामयन्तो भयगं संवृञ्जे महे ब्रह्मजान्नञ्चता विगुंसदिगुं रात्रेरपश्यन्ततो वेदभयम् समृञ्जत ब्रह्मजान्नञ्च ब्रह्मवक्षिनो नादाभवनि एवं विद्वागुन्देनासुरभयमेव संवृज्जते ब्रह्मजान्नञ्च ब्रह्मवक्षिनोन् नादा भवन्ति तिष्ठन्ति विगुंशोपे पुरुषोदशभश्च अङ्गुलज्योतशभ्याष्ठन्ति ज्योजर्गौरा योजित्र्यः भवन्ति गौरसावान यवानेव लोकानभ्यारोहन्त्यपि पूर्वन्त्यः भवन्त्यपि पूर्वमेव सुभर्गं लोकमभ्यारोहन्ति पृष्ठानि भवन्ति वै वीर्यम् पृष्ठान्योदय प्रतिष्ठन्ते यज्ञस्याोकयन् लोकमभ्यालोभन्त्येव लाजेनानि पृष्ठान्यन्ते प्रत्यङ्ग् प्रत्यमलोष्ठित्याभयो भविता भवता ब्रह्मवर्जनस्य नादस्य असावादित्यास्मिन् लोकादेवा पृष्ठेश्वर्गम् लोकमगमयन् परे नमस्तात् पर्गृह्णन्ति वागे तेन सुभर्गे लोके परे परस्तात् पर्गन्धन् पृष्ठेतु मा वा रोहान् स वा असावादित्यान् लोके भरेभय परिगृहे पृष्ठाणि भवन्ति सुवर्गमे लोके यजमानायन्ति परे नमस्तात् परिगृह्णन्ति तेन न्ति वरे परिगृह्णन्ति पृष्ठे रूपान् लोकान् निष्पद्यस्य प्रजाभिदो दिवागेत्यम्बरस्तावाना भवन्ति सुवर्गेवैरा परिगृह्णन्ति रमाना वैदिवागे त्रिंवर्गः परस्तावाभिदो दिवागेत्यं वरस्तावाना भवन्ति संवत्सरगेव च्छन्ते पृष्ठं वेदिपागे भवन्ति तस्मात्भिदः पृष्ठं पार्श्वे भूयिष्ठा पृथान्ते भूयिष्ठगंशुनर्थमित्यन्ते सप्तवेदीण्याः प्राणा प्राणाचीनानि पृष्ठानि भवन्त लोकन्न प्रत्यवलोहे जावाद्वै यजमाना प्रभागे जीराणि वृष्टानि भवन्ति ममेव प्रत्यवलोहन्त्य स्वास्मिन्नेव लोके प्रतिष्ठन्त्यरुन्मालायेन्द्रोमा प्रतिष्ठितः प्रजापदा भक्तस्पागे तमेजविंशतिरात्रं प्रागच्छत्तमाह रक्तेनाय प्रत्यतिष्ठन् देवभुयाजनो प्रतिष्ठिता स्तुस्तगेश्रमाने धा पञ्च वस्त्रि मे नौकाधा ेव प्रतिष्ठांसो रात्रे ङ्ग्रामत्वपुष्पामभिषीणायः पुरोहितः तद्देव गर्वेण विष्पम् तस्मिन् हि यदास्मान्वेष्टिरज्ञामभित्रयो देवान्यज्ञश्च सर्वधाते समाहमाहुवे विश्वेण भक्त्यमुपदेहुवेधुमाहम् सन्ते वृञ्जयतु वितरमुखम् प्रजाम् पशोन प्रेषाम् स्वामि हेगीनाघानावाच्यभागा वाश्रुतम् प्रत्याश्रुनवासनामिदे प्रयाजानुयाजान्तुष्टकदमिना वासुषः वृञ्जयुवः अग्निनेन्द्रेणोपे न सरस्पत्या विष्णुना देवताभिः व्याज्यानुवाच्याभ्यामुपदेहुवे यज्ञमातदे ते पषत्कृतम् म् परिग्राङ्गे सुःपदेहुवेषुराजेनान्योदयज्ञम्सेन्द्रानुपदेहुवेषाहमग्निमुखान् सोमवतो विश्वेः भोगम् भव्यम् भविष्यन्वृत्साहायित्साहायत्रे जगदेवरक्षाः नमः पृथव्यम् क्षन्द्योर्यावत्साहाणोपानो आमे गृहाभवन्ता प्रजामः मा यज्ञामिशतमेर्यावान् आपो देवेर्यज्ञियामापिषन्तु सहस्रस्य मा भूमा प्रभासीत् आमे गृहो भवन्तापनोरक्ष्मदेवाभिषदा आदित्यापसवो मेस्या सहस्रस्य मा भूमा प्रभासीत् आमाज्ञप्रोभिषदोक्षातिरात्रो अण्डिया वा सुहृता आविषन्दनहस्तस्य वा भौमा वा प्रहासेत् अग्निनातमो न भवद् ब्रह्म मणिना रूपाणीन्द्रेण देवानुवादेन प्राणान् सूर्येण चन्द्रमदा नक्षत्राणिगानजकरेण सत्पादोच्छेन वृणाविष्टास्वायनभेण धामान् ब्राह्मणे नवाचम् स्वाहाभिमाधीताय स्वाहा स्वाहाधीतं वनज स्वाहा स्वाहा वनः प्रजा वनय स्वाहाकाय स्वाहागस्मै स्वाहा वनमस्मै स्वाहादित्ये स्वाहादित्यै भत्यै स्वाहादित्ये तु स्वाहा सरस्वत्ये स्वाहा सरस्वत्ये बृहत्यै स्वाहा सरस्वत्ये पावकागे स्वाहा पोष्ठे स्वाहा कोष्ठे प्रवच्छाय स्वाहा Tushte Smaha Tushte Duni Vaya Smaha Tushte Bururu Vaya Smaha Vishne Vesmaha Vishne Vena Gurya Vaya Smaha Vishne Vena Bhuya Vaya Smaha Zalva Smeshmaha दर्भस्वाहा हनोभ्यागस्वाहोष्ठा भ्यागस्वाहा यस्वाहाभ्यागस्वाहा क्षे भागस्वाहा गर्णा भ्यागस्वाहा बालयिक्षव भार्ये दःपक्षभ्यस्ताः बालयिक्षव पार्ये दःपक्षभ्यस्ताः येत्ते स्वाहाभ्यागस्वाहाडा यस्वाहा स्वाहा मस्तिष्का यस्वाहा गेशेभ्यस्वाहास्वाहाभ्यस्वाः कण्ठभ्यस्वाः के गदा भस्वाः पृष्टेभ्यस्पाः वायश्च यस्वाहा वा स्वागस्वाहा गुधा भ्यागस्वाहा दोषभ्यागस्वाहाभ्यागस्वाहा जङ्गा भागस्वाहा श्रोणेभ्यागस्वाहोरुभ्यागस्वाहाद्यागस्वाहा स्वाः भाः त्रिखण्डे अभ्यस्ताः स्वाहाभ्यागस्वाहास्वाहाय स्वाहा प्रजाभ्यस्वाः प्रजनायस्ताःभ्यस्ताः शवेभ्यस्ताः नोमभ्यस्ताः प्रजे स्वाहायस्ताः मागुंशायस्ताः स्नामभ्यस्ताः स्तभ्यस्ताः मज्जभ्यस्ताः येभ्यस्वाः आत्मने स्वाहा सर्वस्मै स्वाहा ञता यस्वाहा यस्वाहापदे स्वाहा चिरिगुदे स्वाहा चिरंजा यस्वाहापृष्ठा यस्वाः चित्यगुण्डा यस्वाहा पुष्पकर्णा यस्वाः चित्यवृष्ठा यस्वाहा चितिभवे स्वाहा चितिभदे स्वाहा श्वेतानोकादा यस्वाहाञ्जले स्वाहा दलावा यस्वाहायज्ञवे स्वाहा कृष्णैता यस्वाहातैता यस्वाहारुणैता यस्वाहेदशा यस्वाहा गीतसा यस् महादाद जायस्ताह सदृशायस्ताह विसदृशायस्ताह सुराय इक्ताह रूपागतः सर्वस्मै स्माह कृष्णा यस्वाहा श्वेतायस्ताः विशङ्गाय स्वाहाायस्वाः रुणाय स्वाहा स्वाहा स्वाहा न गुणा यस्वाहाता यस्वाः शोणाय स्वाहा श्यावा स्वाहा श्यावा स्वाहा वागनाय स्वाहारूपायस्वाः अनुरूपायस्वाहाय स्वाहा स्ता मूल भस्ता भ्रस्ता कांडस्ता है भस्ता भस्ता फले भ्यस्ता गृह भस्ता गृहि भस्ता बनने भ्यस्ता भस्ता परस्परे भस्पाः मूरे भस्पाः तूरे भस्वाः स्कन्ध भस्ताः शाखाः भस्ताः भणे भस्ताः पुष्पे भस्ताः फले भस्ताः जिहेरे भस्ताः लिहेरे भस्ताः भे भस्ताः शगाने भष्टाः शिष्टा यस्वाहा यस्वाहाष्टा भस्वाःष्टा यस्वाहोष्टा यस्वाः रिक्ता यस्वाहा रिक्ता यस्वाः रिक्ताः स्वाहा संवृत्ता यस्वाः उद्रिक्ताय स्वाहा सर्वस्मरे स्वाहा ओ न्दे देवाम् गच्छेयम् पुरोधाम्पतिरात्रमपश्यक्तवाहरते तस्मैश्ववाददा गच्छत् पुरोधा एवम् यद्वाकुंसचतुर्विगुंसतिरात्रमातरेभ्य पुरुष्यादते गच्छन्ति पुरोधाम् गौगौराय दरिद्र्यः भवन्ति गौरसा वायिनिमाणे बलोगान् भवत्यपि सत्रं तद्यन्दा वा भवन्ति ते सत्रं देवतादेव पृष्ठैरवन्धदेवन्दो वा भोजस्येव वीर्ये पुरुप्रजतिष्ठन्ते बृहत्र संन्तराभ्या हैयन्तीजं वारमसौ विहलाभ्या वेवयन्त सो अनजोरेव प्रतिष्ठन्ते देवैर्यस्याजने श्रीताभ्यामेवर्गन् लोकयन् चतुर्विवंशति चतुर्विगंशति रक्तमादाः संवत्सरः संवत्सरस्वर्गो लोकः संवत्सर एव वर्गे लोके प्रचक्षन्तर्विगंशत्यक्षरा गायत्री गायत्रे ब्रह्मवक्षदम् गायत्रेण ब्रह्मवक्षदमु भवतो ब्रह्मवक्षदस्य परिधेत्ये यथा वे मनुष्यादेवं देवाग्रासन्ते गावयन्तावत्यम् पाप्पानम् गच्छेकञ्चदौर्मिकं दिनरात्रमपश्यन्तीकं संसरमगच्छति एवं युत्राकं सत्यदर्मिकं सरात्रमासदेवक्तिमेव पाप्पानमहत्यस्य गङ्गच्छन्ति श्रेष्ठमनुष्यस्य दैवीकम् सज्ज्योतिरतिरा य श्रवन्ति त्रयस्त्रयस्त्रिंशांशो भगतो दैवेगंसरं वध्वलो गच्छन्ति ज्योति वा एत् कुर्वन्ति यत्र यत्र भवन्ति तेनानि पृष्ठानि भवन्त्योद्वाश्चन्दो वा उभाभ्यागुं रूपाब्ोके यन्त्य सत्रं वा नेतत्र यच्छन्दो वा भवन्ति तेन सत्रं देवता एव पृष्ठेभो चन्दो वैरोग्यं पृष्ठानि वरवश्चन्दो वाजग त्रयस्त्रय त्रिनिंशा अवस्था भवन्ति त्रयस्त्रय त्रिनुंशा परस्त्रान्मध्ये पृष्ठान्यो वैत्रयत्रिनुंशा आत्मा पृष्ठान्यात्मरेवन्ते शत्रसन्तराभ्याश्चभ्यामेव यन्त्यनजोरेव प्रतिष्ठन्ते ते वै शैत्यस्याभ्यामेव स्वर्गम् लोकयन्ति वराः गम् लोकमभ्यारोहम् जयेव राजेनानि वृष्टाङ्गमयन्ते प्रत्याक्षर प्रत्यवरोध्याःत्यावायम् सम्पत्यै प्रभवारिज्योद्रष्टोमा भवत्ययम् वादक्षया चतुर्विंशतिरा चतुर्विंशरस्वर्गो लोके लोके प्रतिष्ठन्त्यथ चतुर्विंशत्य ृक्षा वाशुकामास्तुस्तके प्रजया पशुभिर्यम् वा अक्षध्य विराजमपश्यत्ता वास्पते र्गस्य लोकस्यानुष्ठति षट्वादवशरेव प्रशित्रयस्त्रिगुम् चोपयन्ति नित्यस्वन्द प्रजापतित्रेस्त्रिगुंशः प्रजापतिमेवारभन्ते नवभवति विदित्या एकविगुंस भवति प्रतिष्ठे च अथौर्यमेवात्मन्दसेत्रे सौते गो वैत्रवर्तेवा त्वन्दसेवं चन्द्रोमो भवतेन्द्रियमेवावन्धदे जायन्त एकविगुंस भवति प्रतिष्ठे च र्गे लोके प्रतिष्ठन् विशोभन्त भवन्ति एवं विद्वांसेतां च कृष्णान्यपयन्ति एव प्रतिष्ठानि देवताभ्यारोहन्ति त्रयस्त्रिगुं चात्रयस्त्रिगुं चेत् देवता ेवष्टो भवन्ति भवन्तिक्तारेव भवन्ति देव सुमर्गन् लोकयन् लोकयो कल्पने त्रिशं विराजैवान्नाद्यमवरुन्धते भवतोन्नाद्यस्य परिगृहेत्यै र्गम् लोकमेत्तन् देवा येन चन्द्राप्तवन्त प्रजापतिष्वेनैवदा प्रजापति माप्त्वार्गन् लोकवान् विद्वागुण्डेता भातृगं दलेता भातृकं दराष्टभक् प्रजापस्पेणैवन्ददा प्रजापतिमाप्त्वा श्रियम् गच्छन्ति ष्टवामेव वासवन्ति सर्वेतार सर्वेः श्रियम् गच्छन्ति गौराजरित्रः भवन्ति गौरसा वा लोकानभ्यारोहन्त तिष्ठन्ते सुर्गन्दागयन्ति रेपलाजस्रानुपयन्ति प्रत्यन्त प्रत्यवलोभ्यासापदे लोकयो द्वात्रिकं सदेतास्तासां शस्त्रकौ सदकथा विरागन्वं विरा देवा भागम् रूपानम् लोकयन्त्रिरा भवतः परिगृहीन्त्यै देवावदेव सत्रयत्मादसाहस्रीमत्रयस्त्रिगुणरहस्त्रिदेवम् विद्वांस्रेत्रिगुण्डरहमासे साक्षादेव देवताज्ञानो हन्ति खलु श्रेयान्या ेनावर्तन्ते हर्भाजो वा अग्राहे हरें दस्तयस्त सर्वरेव प्रवाहरुद्धवन्ति सर्वे ग्रामणीयं प्राप्नुवन्ति पञ्चाः भवन्ति पञ्चमानाः त्रे प्रचतिष्ठन्त्य सञ्चामज्ञान्तो यज्ञो यज्ञमेवावरुन्धते प्रेण्याः श्विनानि भवन्ति प्रेयमे लोगायेष्वेव लोके च प्रचतिष्ठन्तसौ त्रीणि मे यज्ञस्य हेन्द्रियानि दान्येवावरुन्धते विश्वजद्भवत्यन्नाम यस्यावरुद्धे धर्मवृक्षोय सर्वस्याभिरे द्वादशाहो यत् पुनस्ताद्वादशाः वेगाम् वाचमुपेद ष्टाद्वादशाहमुयन्त्यात्रामेव वाचमुयन्त्यस्मादुपरिष्टाद्वाचावदावो मान्तरं वैरशरात्रेण प्रजापति प्रजा अश रात्रस्य विलोपक्रियरे स्तेवेशान्त्यनेका वा एता रात्रिणो यजमानास्पत्सहाधिरात्रेण पूर्भाषोडशसहादिरात्रेणोत्तरा षोडशगदेवम् यद्वागन्तस्तयस्तयम् एषान्तरेका प्रजागतेऽति रात्रा भविता भवतः परिगृहीत्यै आदित्या अकामयन्त सुवर्गम् लोकमिजामेतिते सुवर्गम् लोकन्न प्राजानन्न सुवर्गम् लोकमायन्तम् शत्रात्र पश्यन्तवाहरन्तेनायन्त ततो वेते सुवर्गम् लोकम् प्राजानयन् सुवर्गम् लोकवाचने यद्वाकुम् षत्रिकम् शत्रात्र वासने सुवर्गमेव लोकम् प्रजानन्ति सुवर्गल् लोकयन्ति ज्योतिरतिरात्रो भवति ज्योतिरेव पुरस्ता ेष प्रतिष्ठन्ति यत्तारा भवन्ति प्रतिष्ठन्ति छत्रं वान्दा वा भवन्ति तेन छत्रन्देवन्दा वैरज वैवेर्यं पृष्ठानि भजवश्चन्दा वािगुं क्षत्राभवति क्षत्रिगुं सदक्षदा बृहदेव न्दर स्वाराहाजमाच्युताश्चपदे स्वाराज्येवम् विद्वागुम् सत्ता समासदे स्वर्गदेव लोकै हतपुत्र कामयत विन्देण प्रजा मृषिणौ दासान् भवेगमित सखेतमेकस्पान्न पञ्चविन्दद प्रजा मृदौ दासानुभवत्रेवं विद्वांसके गान्न पञ्चासवासदे विन्दन्ते प्रजामभिभ्रातर्यान्भवन्त्रेस्त्रोकं सगृश्यन्ते स पञ्चलषा भवन्ति पञ्चलसो वज्र वज्रलेव भ्रातर्णेभ्य प्रहरन्ति रोडश महत् भवति वग्रजेवर्यन्तदशा भवन्त्यस्याव्याथ प्रैवैर्जायन्ते पृष्ठश्चेदम्बत्सरेव विकुशा भवन्ति प्रदक्षासो चेष्टो भवन्ति विजित्येषा ेव प्रजोनादेक्तावा नेतारात्तरभुवनास्तद्यदेकस्तै न पञ्चाशदृक्तास्तद्यद्भुवनैरष्टायद्वारिभुवनाच्च प्रजापरिप्राणादिवाश्चैव जायन्ते प्रजयापदभिजोपाकस्वान्न पञ्चाशोदेवं विद्वांसदेकस्वान्न पञ्चाशपादते विराजमेव गच्छन्त भवन्ततिरात्रालभितो भवतो राज्यस्य परिगृहेत्यै संवत्सरा ये दृश्य वागायै काष्ठगायान् दे क्षेरन्वेता वे संवत्सरस्य पत्रे यते काष्ठगेतस्याम् बाले शेता गोरात्र्यम् वदवि साक्षारेव संवत्सर बालभ्यदे क्षन्तात्तम् बालेते संवत्सरस्याभिदेहः भव फल्गुणयोर्णवासे क्षेरण्मुखं वासो मुखदेवलं वत्सरमारभ्यरे कन्ते तस्यै देव निर्यायच्छाम्बे सम्पद्यते चित्रापोर्णवासेदे क्षेरण्मुखम् वा नेतत्संवत्सर श्रीर्चित्रापोर्णवासो मुखदेवलं वत्सरमारभ्ये क्रन्ते निर्गाभुव चतुर्हेफल ौर्णमास्तेनम् तेषामेकाष्टकायाम् क्लेशः सम्पद्यते तेनैकाष्टकान्न कुर्वन्ति ते पूर्णभक्षे शक्त्या सम्पद्यते पूर्णभक्षम् माता अभिजम् पश्यन्ते पूर्णभक्षमुत्तिष्ठन्ति तानुत्तिष्ठदवोषयो वनस्पदयोत्तिष्ठन्ति तान् कल्याणी कीर्तिर्णोत्तिष्ठन्ति स्वर्गम् वा एते लोकयन्ति ने सत्रपयम् च भीन्धर एव दीक्षात्मानग्रष्टवयन्तः मज्जानमादक्षिणम् वै प्रमात्मानमेव लक्षिणा नेता सुवर्गम् लोकय्यन्ति शिखापुलम् प्रवन्द्यासो रघीजागुं दस्वर्गम् लोकमया वेति de sí. ब्रह्मवाजिनो वदन्द्रात्र परमो यज्ञक्रतोराङ्गात्रम् प्रथमवयन्तेबन्दान ज्योतिष्टामम् प्रथमवयन्ते ज्योतिष्टोमो वै स्तोमानाम् मुखम् मुखदेव स्तोमान् प्रयुञ्जते वेदग्रस्तदा विराजमभि सम्पद्यन्ते वेद लोकोज्योर्विराट् सुवर्ग्रमेव ब्रह्मरामम् भगन्तम्ब्यतोमि